श्रीमद्भागवत महापुराणं नवं स्कन्ध अथैकोनविंशोऽध्यायः यजातिकागृहीत्यागशेषोकुवाच स इत्थमाचरन् कामास्त्रेणोपन्वं द्वमात्मनः बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत शृणुभार्गव्यमुं गाथाम भुवि धीरा यस्यानुशोचन्ते वने ग्रामनिवासिनः बस्तये को वने कश्चिन् विचिन्वन् प्रेमात्मनः ददर्शकोपे पतितां सकर्म वस मां वसगामजां तस्या उद्धरणोपायं वस्तकामि विचिन्तयन् व्यधत्त तीर्थमुद्धृत्य विषाणाग्रे न रोचसी तोत्तिर्यकुपाशुश्रोणितमेव चकमे किल तया वृतं सुमुद्विक्ष्य बह्वयोजाकान्तकामिली पीवानं श्मश्रूलं श्रे प्रेष्टं मृश्वासं याभकोविधं स एको जषस्तासां रेवे काम रेमे कामगृहग्रस्त आत्मानं तमेव प्रेषितमयारं रममाणजं जान्यनां विलोक्य कूपसंविज्ञानां नृत्यन्दस्तुकर्मतन् तं दुहृद्रं सुहृद्रूपं कामनं क्षणसौहृदम् इन्द्रिया राममुसृद्य स्वामिनं दुःखिताययौ सोऽपि चानुगतस्त्रेण कृपणास्तां प्रसारितुम् कुर्वन्निडविडाकारं नाशक्नोत्परिसन्धितुं तस्यास्तत्र द्विजकश्चिन्नजास्वाम्य छिन्नदृशा लम्बन्तं विषणं भूय सन्दतेर्थाय यो गवे सम्बद्धविषणशोऽपि शजया कोपलब्धया कालं बहु च तथाहं कृपणा शुभ्रो भवत्या प्रेमयन्तितः आत्मानम् नाभिजानामि मोहितस्तव माययाम् यत्पृथिव्याम् व्रीह्यवम् हिरण्यम् पशवस्य न दुह्यन्ति मनः प्रीतिम् पुंसकाम हतस्यते न जातु कामकामानाम् उपभोगेन शाम्यते हविषा कृष्णवर्त्मेवम् भूय एवाभिवर्धते यदाना न भावं सर्वभूते स्वमङ्गलम् समदिष्टे तदा पुंसर्वा सुखमया दिशः या दुस्तदुर्मतेभिर्जीर्यतो या न जीर्यते तां तृष्णां दुःखनिवहां सर्वकामोदुतं मात्वा स्वस्त्रा दुहित्रा वा बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षते पूर्णं वर्षसहस्रं मे विषयान् शेवतोऽसके तथापि चानुशमनं तृष्णा ते सूपजायते तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसं निर्द्वन्द्वो निरहङ्कारञ्चरिष्यामि मृगैः सह दृष्टं सुतमसन् बुद्ध्वा नानुध्यायेण संविशेत् संसृतिं चात्मनासं च तत्र विद्वांस आत्मदे इत्युक्त्वा नाहुशोजायां तदीयं पूर्वे वयः धत्वा स्वां दरसं तस्मादाददे विगुतस्पृह दिशे दक्षिणपूर्वस्यां द्रुहुं द्रुह्युं दक्षिणतो प्रदिच्यां तुशुं चक्र उदित्यामेश्वरम् भूमण्डलस्य सर्वस्य पुरुमर्हतमं विषामभिसृच्याकृस्य वशे स्थाप्य वनं व्ययौ आसेवितं वर्षपूगान्धर्वर्गं विषयेष् क्षणेन मुमुचै नीडं जातपक्ष इव द्विजः तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विदितस्त्रिलिङ्ग तरे मले ब्रह्मणि वासुदेवे देभे लेभे गतिं भागवतीं प्रतीत श्रुत्वा गाथां देवयानी मेदे प्रस्तोभमात्मनः श्रीपुंसो स्नेहवैक्लव्यां परिहासं इवेरितं सा संनिवासं सृहृतां कृपायामिव गच्छताम् व्यज्ञाये स्वरतन्त्राणां मायाविरचितं प्रभो सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवे कृष्णे मनसामवेश्य जनुर्लिङ्ग्यधुनो लिङ्गमात्मनः नमस्तुभ्यं भगवते वासुदेवाय वेधते सर्वभूताधिवासाय शान्ताय बृहते नमः इति श्रीमद्भागवते महापुराणे पारंस्यां चैतायां न विस्कन्धे एकोनविंशोऽध्यायः